श्रीहरये नमः अत एकत्रिंशोऽध्यायः श्रीभगवानुवाच कर्मणा दैवनेत्रेण झन्तुर्देहोपपत्तये स्त्रिया प्रविष्ट वुदरं उदरं पुंसोरेतकणाश्रयः कललं त्वेकरात्रेण पञ्चरात्रेण भुद्भुतम् दसहेन तु कर्गन्धो पेष्याण्डं वा मातेन तु शिरोद्वाभ्यां वाक्वङ्ख्यर्ध्यात्यङ्गविग्रह न कलो मास्ति चर्माणि लिङ्गचित्रोद्भवस्त्रिभिः चतुर्भिर्धावतः पञ्चमीशत्रुड्वोद्भवः षड्भिर्जरायुणावीत कुशौ भ्राम्यति दक्षिणे मातुर्जग्धान्नपानाद्ये एधत्तादुरसम्मधे सेते विण्मूर्त्रयोर्घर्ते स झन्धोर्झन्तु सम्भवे कृमिभीक्षत सर्वाङ्ग सौकुमार्यात् प्रदक्षिणम् मोर्च्छाम् आप्नोत्यो रुक्लेश तत् त्यैक्षिधितैर्मुहुः कटुतीक्ष्णोष्णलवण रुषां लादिभिरुल्बणैः मातृभुक्तैरुपस्पृष्ट सर्वाङ्गोतितवेदनः उल्बेन संवृतस्तस्मिन् अन्त्रैश्च बहिरावृतः आस्ते कृत्वा शिरौ कुक्षौ भुग्नपृष्ठशिरोधरः अकल्पस्वाङ्गचेष्टायां शकुन्त इव पञ्जरे तत्र लब्ध स्मृतेर्दैवात्कर्म जन्म सदोद्भवं स्मरन् दीर्घमनुश्वासं सर्व नाम विन्दते आरभ्य मान्मासाब्धबोधोऽपि वे पितः नैकत्रास्ते सुतिवाथैर्विष्ठा भूरिवसोदरः नाथ मानऋषिर्भीथ तभद्रे गृधाञ्जलिः स्तुवीततं विक्लवया वाचा येनोधरेऽर्पितः जन्तुर्वाच तस्योपसन्नमवितुं जगतिश्च यात नानातनोर्बुवि चलच्चरणारविन्दं सोऽहं व्रजामि शरणं ह्यकुतो भयं येनेदृशे गतिरतर्श्य सतोऽनुरूपा यस्त्वत्र भद्र इव कर्मभिरावृतात्मा भूतेन्द्रियाशयमयेम् अवलम्ब्य आस्ते विशुद्धमविकारमघण्टभूतम् आतप्यमानहृदये वसितं नमामि यः पञ्च भूतरचितेरहितः चन्तो यथेन्द्रियगुणार्थ चितात्मकोऽहं तेनाविकुण्ठमहिमानं ऋषिं तमेनं वन्दे परं प्रकृतिपूरुषयोः पुमांसं यन्माययोरुगुणकर्मनिबन्धनेऽस्मिन् संसारिके पतिसरंस्तदभिश्रमेण नष्टमृतिः पुनरयं प्रवृणीतलोकं युक्त्या कयामह तदनुग्रहमन्तरेण ज्ञानं यदेतत अधधात् कथमः स देवः त्रैकालिगं स्थिरचरेषु अनुवर्तितां सहा तं जीवकर्म बधवीमनुवर्तमानाः तापत्रयोपशमनाय वयं भजेम देह्यन्यदेहविवरे जडराग्नि अश्रोक् विण्मोत्रकूपतितो भृसतप्तदेहः इच्छन्नितो विवसितुं गणयन् स्वमासान् निर्वास्यते ते कृपणधीर्भगवन्कधा नो येनेदृशीं गतिमसौ धसमास्य ईश सङ्ग्राहितः स्वेनैव तुष्यतु कृतेन स को नाम तत्प्रतिविनाञ्जलिमस्य कुर्यात् पश्यत्ययं दिषणयाननुसप्त वध्रेर्सारीरके धमशरीर्यपरस्वदेहे यत्सृष्ट्या सन्तमहं पुरुषं पुराणं पश्ये बहिर्हृदि च चैत्यमिव प्रतीतं सोऽहं वसन्नपि विभो बहु दुःखवासं गर्भान्तनिर्जिगमिषे बहिरन्धकूपे यत्रोभयात् तमुपसर्पति देवमाया मिथ्यामतेर्यधनुसंसृति चक्रमेतत् तस्मादकम्बिकतवि क्लवमुद्धरिष्य आत्मानमासु तमसत् सुहृदात्मनैव भूयो यथा व्यसनमेतनकरन्ध्रं मा कपिल उवाच एवं कृतमतिर्गर्भेतसमास्यस्तु बनृषिः सत्यक्षिपत्यवाचीनं प्रसूत्यै सोते कृत्वा वाक्षिर आतुरः विनिष्क्रमतिकृश्चरेण निरुश्वाशो हत पतितो भुव्यश्रृङ्मूत्रे विष्ठा भूरिव चेष्टते रोरू यति गते ज्ञान विपरीतां गतिं गतः परच्छन्दं पुष्यमानो विदुष पुष्यमाणो जनेन सह अनभिप्रेतमाबन्ध प्रत्याज्ञातुमनीश्वरः सायितो सुषिपर्यङ्के झन्तुस्वधे जदूषिते नेश कण्ढयनेऽघानाम् आसनोत्थानचेष्टने दुदन्त्या मध्वशं ध्वंसा मसकामद्गुणाधयः रुदन्तं विगधज्ञानं कृमय कृमिकं यता इत्येवं शैशवं भुक्त्वा दुःखं पौघण्टमेव च अलब्धा भीप्सितो ज्ञानात् हिद्धमन्यो स चार्वितः सह देहेन मानेन करोति विग्रहं का मे का मिष्वन्ताय चात्मनः भूतैर्पञ्चभिरारब्धे देहे देह्यभुतो सहृद् अहं ममेत्य सद्ग्राहः करोति कुमतिर्मतिं तदर्थं कुरुते कर्म यद्बद्धो याति संस्मृतिं यो नो याति तदत्क्लेशम् आस्तितो रमते जन्तोस्तमो विसति पूर्ववत् सत्यं शौचं दया मौनं बुद्धिश्रीर्क्रीर्यषक्षमः समो धमो भगश्चेते यत्सङ्गात्याति संक्षयं तेष्वशान्तेषु मूढेषु खण्डिदात्मस्व सङ्गं न कुर्यात् सोष्येषु योषित् क्रीडां गृहेषु च न तस्य भवेन्मोहो बन्धश्चान्यप्रसङ्गतः योषित् सङ्गत्यथा पुंसो यथा तत् सङ्घिसङ्गतः दुहितरं दृष्ट्वा तत् ोभदर्शितः रोहि भूतां सोन्वधा वृषरूपिह तत्रपः तत्सृष्टसृष्टसृष्टेषु कोन्वगण्डी दधिः पुमान् ऋषिं नारायणमृते योषिन्मय्ये स्त्रीमय्या जयिनो दिशां या, या करोति पदा क्रान्तान् केवलं सङ्गं न कुर्यात् प्रमदा योगस्य पारं परमारुषुः मत्सेवया प्रतिलब्ध आत्मलाभो वदन्ती या निरयत्वा रमस्य योपयादिस निर्माया योषि देव विनिमिर्थामीक्षेतात्मनो मृत्युं तृणैकोपमिवावृतं यां मन्यते पतिं मोहा मन्मायां मृषभायतीम् स्त्रीत्वं स्त्रीसङ्गतः प्राप्तो वित्तापत्य गृहप्रथं तामात्मनो बिजानीयात् पत्यपत्य गृहात्मकं दैवोपासादितं मृत्युं मृगयोर्गायनं यथा देहेन जीवभूतेन लोकाल्लोकम् अनुव्रजन् पुञ्जान एव कर्माणि करोत्यविरतं पुमान् जीवो ह्यस्यानुगो देहो भूतेन्द्रियमनोमयः तन्निरोधोऽस्य मरणम् आविर्भावस्तु सम्भवः द्रव्योपलब्धिस्थानस्य द्रव्येषो योग्यता यथा तत्पञ्चत्वम् अहं मानात् उत्पत्तिर्द्रव्यदर्शनं यथाक्ष्णोर्द्रव्यावयवदर्शनायोग्यता यथा तदैव चक्षुषो द्रष्टोर् द्रष्टृत्वा योग्यतानयोः तस्मान्न कार्यसन्त्रासो न कार्पण्यं न सम्भ्रमः जीवगतिं धीरो मुक्तसङ्गश्चरे दर्शनया बुद्ध्या योगवैराग्ययुक्तया मायाविरचिते लोके चरेण्यस्य कलेवरम् इति श्रीमद्भगवते महापुराणे तृतीयस्कन्ते कापिले योपाख्यानि जीवगतिर्नाम एकत्रिंशोऽध्यायः सर्वत्र गोपिका जीवनस्मरणं गोविन्दा गोविन्दा गोविन्द सद्गुरुनाथमहाराज के जय